अथ्वेदे पञ्चमाष्टके तृतीयोऽध्यायः उग्रो यज्ञे वीर्याः यस्वधा वाञ्चक्रिरपोनर्योयत्कलिष्यन् जग्भिर्युवाः नृषतनमोऽभिस्त्राता न इन्द्र एन सो महश्चित् हन्ताः वृत्रमिन्द्रः शोशु वा नः प्रापीन् वीनो कर्ता आसु दासे अहवा उ लोकन्दाता वसुमुहुरा दाशुषे भूत् युध्मो अनर्वाखजकृत्समद्वाशोरः सत्राषाढ्जनुषेमषाढः या आस इन्द्रः पृतना स्वो जा अधाशुष्वं शत्रूयन्तम् जघान बुभे निवज्रमिन्द्रो हरिवान्विमिक्षन् समन्धसामदेशु वा उवोज वृषाजानवृषणम्रणाजतमुचिन्ना रीनर्यम् ससोव प्रयस्येतानीरथदृभ्यो अस्तीनः सत्त्वा गवेषणः स यज्ञैर्य इन्द्रे ददते दुवाहम् शिक्षयत्स राजरतपारतेजाः यदिन्द्रपूर्वो अपराय शिक्षन्न यज्ञायान्कनिः यसो देष्णम् अमृत इत्पर्या आसीतदूरवाचित्रचित्र्यम् भरारयिन्नाः यस्त इन्द्र प्रियोजरोददा आशदसन्निरेके अद्रिवत्सखा आ ते मयन्ते अस्याम सुमतो जनिष्ठा स्यामवरोधे अग्नतो नृपीहीतौ एष स्तोमोह अचिक्रतद्वृषाः उतस्तापुर्मखवन्नक्रपिष्टा प्रायस्कामो जरितारन्तः गन्थमङ्गशक्रमस्वहाशको नः स न इन्द्रत्वयताया इषेधा वस्मीषु ते जरित्रे अस्तु शक्तिर्यूयम् पातस्वस्तिभिः सदा नः असादि देवङ्गोरुदेकमन्धोऽन्यस्मिन्निन्द्रो जनुषे मुवोच बोधामसित्वा हर्यश्व यज्ञैर्बोधा नस्तो ममधसो मदेशो प्रयन्ति यज्ञम् विपयन्ति बर्हि सो ममादो विदधे रुद्रवाचः न्युभ्रियन्ते यशसो दृभादा दूर उपब्दो वृषणो दृशा चाः त्वमिन्द्रस्रवितवा अपस्कः परिष्ठिता अहिराशो न पूर्वीः त्वद्वावक्रे रथ्यो ओ न दे भीषा विश्वा कृत्रिमाणि भीषा भीमोऽपि भी वेषायुधेऽभिरेषामपांसि ज्रहस्तो महिना जघान न या तव इन्द्रजोर्णो न वन्दनाशमिष्ठभेद्याभिः सशर्धतर्यो विशुणस्य दन्तोर्माशिष्णते वा अपि गुरुरुतन्नाः अभिक्रन्ते इन्द्रभूरधज् मन्नते विव्यम् महिमानम् रजाहंसि स्वेनाहिरुत्रम् शवसा जघम् थनशत्रुरन्तम् विदध्युधाते देवाश्चित्ते असुर्याहाय पूर्वे नक्षत्राय ममिदे सहांसि इन्द्रो मघानि लयते विषह्येन्द्रम् वाजस्य जो मवसे जुहावेशानमिन्द्रसौ भगस्य अभो बभूथशतमूते अस्मे अभिक्षत्तु वरूता सखायस्त इन्द्र विश्वहस्यामनमो भृथा सो महिनातरुद्रा वन्वन्तु स्मादेव सा मर्यो मनुषां शवांसि स न इन्द्र त्वयताया इषेधा वस्वेषु ते चरित्रे अस्तु शक्तिर्यूयम् पातस्वस्तिभिः सदा नः पिबा सोममिन्द्र मन्दतुत्पायन्ते सुषावहर्यश्वाद्रीः सोतुर्बाहुभ्याम् सुयतो नार्वा यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्वहंसि सत्त्वामिन्द्रप्रभुव सोममत्तु बोधा सुमे मघवन्वाच मे ते वसिष्ठो अर्चति प्रशस्तिम् इमा ब्रह्म स धमादे जुषस्व श्रुभिहवम् विपिपानस्याध्रेर्बोधा विप्रस्यार्चतो मनीषाम् कृष्पादुवांस्यन्तमासचेमा न ते इरो अपि मृष्येतुलस्य न सुष्ठुतिमसूर्यस्य सदा आ ते भूरिहिते सवनामानुषेषु भूरिमनीषि हवते त्वामित मारे अस्मन्मघवं योक्काः तुभ्ये दिमा सवनाशुरविश्वा तुभ्यम् ब्रह्माणि वर्धना कृणोमि त्वन्द्रुभिर्हव्यो विश्वधासे नो चिन्नुते मन्यमानस्य तस्मो दश्नुवन्दिमहिमानमुग्र न वीर्यमिन्द्र ते ये च पूर्वर्षयो ये च लोत्ना इन्द्र ब्रह्माणि जनयन्तभिप्राः अस्मेते ए सन्तु सख्या शिवानि यूयम् पातस्वस्तिभिः सदा नः उद ब्रह्माण्यैरतश्रभस्येन्द्रम् समर्ये महयावसिष्ठो विश्वा निशवसा तता नोपश्रोताप इतो अया आमि घोष इन्द्रदेवदामिरद्यन्तयच्छुरुधो विवाचि न हि स्वमायुश्चिकिते जने सुतानीदम् हांस्यति पर्श्यस्मान् विजेरथम् गवेषणम् हरिभ्यामुपब्रह्माणि दुदुषाणमस्थुः विवाधिष्ठस्य रोदसीमहित्वेन्द्रो वृत्राण्यप्रतेजखन्वान् आपश्चित्पिप्युस्तर्यो न गाभोनक्षम् नृतम् चरितारस्त इन्द्र याहि वायुर्ननियुतो नो अच्छात्वम् हि धेभिर्दयसे विवाजान् ते त्वामदाः इन्द्रमादयन्तु एको देवत्रादयसे हि मर्ता नस्मिन्छो रसवनेमादयः स एवेदिन्द्रम् भूषणम् वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः स नः स्तुतो वीरबद्धातु गोमद्योऽयम् पात स्वस्तिभिः योनिष्ट इन्द्रसदने अकारितमातृभिः पुरुहोतप्रयाहि असो यथा नो पितावृधे च ततोपसूनि ममदश्च सोमैः प्रभीतन्ते विसृष्टधेना भरते सुवृत्तिरियमिन्द्रञ्जोहुपते मनीषा आ नो दिवः पृथिव्यारजेषन्निदम्बरिभिः सो ओपेया जयाहि वहन्तुत्वा हरयो मध्यञ्जवाङ्कोषमच्छाः तव सम्मदाय आदो विश्वा अभिदूतिभिः सजोषा ब्रह्मजुषाणो हर्यश्वयाहि वरे वृजत्स्थविरेभिः सुशिप्रास्मे दृषणम् सुष्ठमिन्द्र एष स्तोमो मह उग्राय वाहे एधुरी इवाद्यो न भाजयन् लताय इन्द्रत्वाय मर्क ए एष्टे वसोनान् देवान इन्द्र इषम् चिन्वमघवध्यः सुबीरा अन्यूयम् पात स्वस्तिभिः सदा न आते वह इन्द्रोऽत्युग्रसमन्यवो यत्समरन्तसेनाः पदाति विद्युन्नर्यस्य बाह्वोर्मा ते मनो विश्वद्र्या अग्नितारेत निर्ग इन्द्रश्नसिह्यमित्रा आरेतम् शंसम् कृणुहि नित्सोरानो भरसम्भरणम् वसूनाम् शतन्ते क्षिप्रिन्नोतयः सुदासे सहस्रम् शंसा उतरातिरस्तु जहि वधर्वषो मर्त्यस्यास्मेद्युम्नमधिरत्नम् च धेहि त्वावतो विश्वेदः उग्रङ्गोपः कृणुष्व हरिवो नमर्धेः कुत्सा एते हर्यश्वायशूषमिन्द्रे सहो देवजूतमिजानाः सत्राकृतिसुहनाः शूरवृत्रावयन्तरुत्राः सनुयामवाजम् एव न इन्द्रवार्यस्य पूर्धिप्रतेः महीम् सुमतिम्बे विराम घवद्भ्यः सुबेरायम् पात स्वस्तिभिः सदा नः न सोम इन्द्रमसुतो ममातना ब्रह्माणो मघवानम् सुतासाः तस्मा उक्थञ्जनये यज्जुजोषन्द्रपन्नवेयशृणवद्यथा नः उक्थ उक्थे सोम इन्द्रम् ममादीथे नीठे मघवानम् सुतासाः यदि इं स बाधः पितरन्नपुत्राः समानदक्षा अवसेहवन्ते चकारता कृणवन्दो नमन्यायानि ब्रुवन्ति वेधसः सुतेषु जने एरिवपतिरेकः समानोऽमामृजे पुर इन्द्रः सुवाः एवातमाहुरुतशृण इन्द्र एको मिथस्तुर ऊतयो यस्य पूर्वे रश्मे भद्राणि सश्च तत् प्रियाणि देवावसिष्ठ इन्द्रभूतयेष्टीनाम् मृषभंसते गृणाति सहस्रिण उप नो माहि माजाहन्योऽयम् पात स्वस्तिभिः सदा नः इन्द्रन्नरो देवसिताः वन्ते यत्पार्याजुनजते धिजस्ताः शूरो नृषा आताशवसश्च का न आ गोमतिव्रते भजा त्वन्नाः य इन्द्रुष्मो ओमघवन्ते अस्ति शिक्षा सखिभ्यः पुरुहोतनुर्भ्याः त्वम् हि दृढामखवन्विचे एता अपा आवृति परिवृतम् न इन्द्रो राजा जगतश्च ऋषणीनामधिक्षभिषुरूपै यदस्ति ततो ददाति दाशुषेवसू रिचो दद्राध उपस्तुतश्चिदर्वाक नो चिन्न इन्द्रो अमघवासहो ऊते दानो वाजन्यमते न ऊते अनो नाजस्य दक्षिणापीपाय वा मन्द्रुभ्यो अभिवे एता सखिद्भ्यः नो आते मनो ववृत्या मघाय वो मदश्वा आवद्रथ वद्यन्तोयम् वा ब्रह्माण इन्द्रोपयाहि विद्वान् अर्वाञ्चस्ते हरयः सन्तु युक्ताः विश्वे चिद्धित्वा विहवन्तमर्ता अस्माकमिच्छृणु हि विश्वमिन्व हवन्त इन्द्रमहिमाव्या ब्रह्म यत्पासि शपसिन्दृषेणा आयद्वज्रन्द्रभिषेहस्त उग्रघोरः सन्कृत्वा जनिष्ठाः तव प्रणीतीन्द्रजोः वानान्संयन्द्र न रोदसी निनेथा महे क्षत्रायशमसे हि जज्ञेतो तु चिञ्जित्तो सुजिरशिष्णत् हेभिर्न इन्द्राहभिर्दशस्य दुर्मित्रासो हिक्षितयः पवन्ते प्रतियच्चष्टे अनृतमनेना अवर्द्धिता वरुणो मायीनः सात् वोचे मेदिन्द्रम् मघवानमेनम् महो राजो राधसो यद्दन्नः यो अर्चतो ब्रह्म कृतिमविष्ठो योऽयम् पा आत स्वस्तिभिः सदा नः अयम् सोम इन्द्र तुभ्यम् सुन्व आतु प्रयाहि हरिवस्तदो गाः पिपात्वा अस्य सुषुतस्य चारोर्दो मघानि मघवन्नियानः ब्रह्मन्द्वीरब्रह्मकृतिन्दुषाढोर्वाचीनो हरिभिर्याहितोऽयम् अस्मिन्नोषु सवनेमादय स्वोपब्रह्माणि शृणव इमानाः खाते ए अस्त्यरङ्कृतिः सूक्तैः कदा नूनन्ते एमघवन्दाशेम विश्वामतीराततने त्वा याथा पुरुष्या इदासन्येषाम् पूरे एधाम अथाहन्ता मघवञ्जोहवीभित्वन्न इन्द्रासि प्रमतिः पिते वोचे मेदिन्द्रम् मघवानमेनम् महो राजो राधसो यद्दन्नः यो अर्चतो ब्रह्मकृतिमभिष्ठो यूयम् पातस्वस्तिभिः सदा नः आरो देवशवसाया युष्मिन्भवा वृथ इन्द्ररायो अस्या महे नृम्णाय नृपते सुवज्रमहि क्षत्रायपौंस्यायशूर हवन्त उत्पाहव्यम् विभाजितनो शुशूराः सूर्यस्य सातौ त्वम् विश्वे एषु से न्योजने एषु तम् वृत्राणि रन्धया सुहन्तु अहायदिन्दुरसुदिनाह्युच्छान्नथो यत्केतुमुपमम् ्या अग्निस्ये एतदसुरो नहोता होता आहुवानो अत्र सुभगाय देवार वयन्ते त इन्द्रये च देवस्तवन्तशूरदतो मघानि यच्छासूरिभ्य उपमं वरोधम् स्वाभुवोजरडामश्नवन्त वोचे मेदिन्द्रम् मघवानमेनम् महो रायो राधसो यद्दन्नः यो अर्चतो ब्रह्म कृतिमविष्ठो यूयम् पातस्वस्तिभिः सदा नः प्रव इन्द्रायमातनम् हरि यश्वायगायत सखायः सोमपाः शंसे दुःखम् सुदानव उत द्युक्ष्म्यथा नराः चतुर्मासत्यराधसे पन्न इन्द्रवाजयुस्वङ्गव्युष्यतकृतो वयमिन्द्रत्वायबोभि प्रणो नुमो वृषन् विध्ये त्वा अस्य नो वसो मानो निदेशभक्तवेर्योरम् धीररावणे त्वे अभिक्रतुर्ममा तम् वर्मासि सप्रसः पुरो योधश्च पुत्रहन् त्वया प्रतिब्रुवे युजा महाबुदासि यस्य ते तन्ता आमरुत्वते परिभुवद्वाणी सजापरी न क्षमाणा सहद्युभिः ऊर्ध्वा सस्तान्विन्दवो भुवन् रस्वमुपद्यवी सन्तेनमन्तकृष्टयाः प्रभो महेमहि वृथे भरध्वम् वृजेतसे प्रसुमतिम् कृणुध्वम् विशः पूर्वीप्रचराचर्षणिप्राः गुरुं महिने महिनेः सुवृत्तिमिन्द्राय ब्रह्म जनयन्त विप्राः तस्य व्रतानि न मिनन्ति धीराः इन्द्रम् वाणीरनुत्तमन्युमेव सत्रा राजानन्दधिरे सहध्यै हर्यश्वाय वरहया समापीन मोषुत्वापागतश्च नारे अस्मन्निरेलमन् आरा चित्सलपादन्नागहिह वासन्नुपश्रुधि िते ब्रह्मकृतः सुते स चामधो न मक्षासते इन्द्रे कामाञ्जलितारो वसूयभोरथेन पादमादधुः रायस्का आवो वज्रहस्तं सुदक्षिणम् पुत्रो नपितरं पितरम् भुवे इम इन्द्राय सुन्विरे सोमा आसोदध्याः शिरः ता आमदाय वज्रहस्तभीतदेहलिभ्याह्योक श्रवच्छुत्करुण ईय देव सो नान्नोचिन्नो वर्ध्यद्गिराः सद्यश्चिद्यः सहस्राणि शतादधर्दित् सन्तवामिनत् स वीरो अप्रतिष्कृत इन्द्रेण शूषुबेभिः यस्ते एकभीरा सवनानि वृत्रहन् सुनोत्या च धावति भवावरोऽथम् मघवन्नको नायत्समजासिषर्धतः तस्य वेदनं भजे मह्या दूढाशोपरागजम् सुरोतासोपपागुणे सोममिन्द्राय वज्रिणेः पचता भक्तिरवसे कृणुध्वमित्प्रणन्निर्पृणते मयाः माश्रेधतसो मिनो दक्षता महे कृणुद्धम् राज आतुरेजे तरणिरिज्जयति क्षेति पुष्यति न देवासः कपत्नवे न किः सुदासोरसंपर्यासनरीरमत इन्द्रो यस्याः पिता यस्य मरुतो गमत्स गोपतिवृ गमद्वाजम् वारयन्ीन्द्रमर्त्यो यस्य त्वमपिताभुगाः अस्माकम् बोध्यपितारथा आदामस्माकम् शोरनृा उदिन्वस्यदिच्यते शोधनन्न जिगुषाः य इन्द्रो हरिवान्नतभन्तितम् मन्त्रमखर्वम् सुधितम् सुपेशसन्दधात ज्ञयेष्वा ऊर्वीश्चनप्रसितयस्तरन्ति तञ्य इन्द्रे कर्मणा भुवत् कस्तमिन्द्रद्वसुमामत्योदधर्षति श्रद्धा इत्ये मघवन् पार्ये एवाजीवाचम् मघो तव प्रणीति हर्यश्व सूरिभिर्विश्वातरे तवे तवेदिन्द्राभवम् वसुत्वम् पुष्यसि मध्यमम् सत्रा विश्वस्य परमस्य राजसि न किष्पाकोश वृण्वते तम् विश्वस्य स नता असि श्रुतो य ईम्भवन्त्याजयाः तवायम् विश्वः पुरोः तपार्थिवो मस्युर्नामभिक्षते यदिन्द्रयावतस्वमेतावदहमीषीया स्तोतारमिद्यषेयरदावसोनपा आपत्पाजरासीय शीक्षेयमिन्महयते दिवे दिवे राज आकुहचिद्विदे न हि त्वदन्यन्महवन्नः आप्यम्बस्यो अस्ति पिता च न तरणिरिच्छिषासदि वा जम्बुरम् जाजुजा आप इन्द्रम् पुरुहोतन्न मे गिरा नेमिन्तुष्टे एव सुध्रुवम् न मर्त्यो विन्दतेव सुनस्रे धन्तम् सुशक्तिरिन्मख बन्धुभ्यम् मा वते तेष्णञ्यत्पार्ये दिवि नुमो दुग्धा इव धेनवाः ईशानमस्य जगतः स्वर्दुषमीशानमिन्द्रतस्थुषाः न त्वा वान्यो दिव्यो न पार्थिवो जातो न अश्वायन्तो मघवन्दिन्द्रवादिनो गव्यन्द स्वाहवामहे अभिषतस्तदा भरेन्द्रज्यायः कनीयसः ुर्हि मघवन् सनादसि भरे भरे चाः परा आडुदस्व मघवन्नमित्रान् सुवेदा आ नो वसूकृ अस्माकम् बोध्यपितामहाधने भवा सखे एनाम् न आभरपिता पुत्रेभ्यो यथा शिक्षा आडो अस्मिन् पुरुहो तया बलिजीवा ज्योतिरशीमहे मानो अज्ञाता वृजनाहादुराध्योऽ वाशिवासो अवक्रमुः त्वया वयम् प्रवतः शस्पतिरपोतिषो रतरामसे श्वित्यम् चो मा दक्षिणतस्कपर्दाधियञ्जिन्वासो अभि प्रमन्दुः उत्तिष्ठन् बोचे परिबर्हि शोदूरादपितमेऽवसिष्ठाः दूरादिन्द्रमनयन्ना सुतेन तिरो वै शन्दमतिपान्तमुग्रम् पाशद्युम्नस्य वायदस्य सोमात् सुतारिन्द्रो वृणीतावसिष्ठान एव सिन्धुमेभिस्तरा रेन्नुकम् हेरमेभिर्जघान ेवेन्नुपम् दाशराज्ञे सुदा सम्भ्रापदिन्द्रो ब्रह्मणावोऽवसिष्ठाः जुष्टे नरो ब्रह्मणावः पितृणामक्षमव्यजम् न उद्यामिवे तृष्णयो नाधिदासो दे एषयुर्दाशराज्ञे मृतासाः वसिष्ठस्य स्तु वत इन्द्रो अश्रो दुरुन्दृत्सुभ्यो अकृणोतु लोकम् दण्डा इवेद्भो अजनासः सम्परिच्छिन्ना भरता अर्भकासाः अभवच्च पुर एतावसिष्ठ आदितृत्सो नाम्विषो अपृथन्त त्रयः कृण्वन्ति भुवनेषु रेतस्तिस्रः प्रजा आर्या ज्योतिरग्राः त्रयो घर्मास उषसंसजन्ते सर्वाम् इत्ताम् अनुवितुर्वसिष्ठाः सूर्यस्येव पक्षथो ज्योतिरेषाम् समुद्रस्येव महिमा गभीरः वातस्येव वा प्रदमो नान्येन स्तोमोऽवसिष्ठा अन्वेतवेवः त इण्यण्यम् हृदयस्य प्रजेतैः सहस्रवरुषमपि सञ्चरन्ति यमेन ततम् परिधिम्बयन्तोत्सरस उपसेदुर्वसिष्ठाः विद्युतो ज्योतिःपरिसन्दिहानम् मित्रावरुणायदपश्यतान्त्वा तत्ते जन्मोतैकम् वसिष्ठागस्थ्यो यत्त्वा विषहा जपार उतासि मैत्रावरुणोऽवसिष्ठोर्वश्याः ब्रह्मन्मनसोऽधिजातः रत्संस्कन्दम् ब्रह्मणा दैव्ये एन विश्वे एदेवाः पुष्करे उभयस्य प्रविद्वान्सहस्रदान उत वासदानः यमेन तरम्बरिम्भयिष्यन्नप्सरसः परिजज्ञेऽवसिष्ठः सत्रेह जाताभिषिता नमोभिः कुम्भेरेतस्य हान उदियाजमध्यात्ततो जातम् श्रिमाहुर्वसिष्ठम् उक्थभृतम् सामभृतम् विभर्तिग्रावाणम् बिभ्रत्प्रवदात्तिग्रेः उपैनमाध्वम् सुमनस्य माना आवो अगच्छाति प्रकृतोपसिष्ठः प्रशुक्रै तु देवेऽपदेशा अस्मत्सुतष्टो रथो न वाजे विदुः पृथिव्यादिवो जनित्रम् शृण्वन्त्यापो अधक्षरन्तेः आपश्चिदस्मै पिन्वन्तवृच्छे रत्रे षो रामम् उग्राः आधोर्ष्वस्मै दधाताश्वानिन्द्रो न वज्रेहिरण्यबाहुः अभिप्रस्थाताहे एव यज्ञञ्जाते एव रत्नम् त्वना हिनोत मना समत्सु हिनोत यज्ञम् दधातकेतुञ्जनाय वीरम् उदस्य शुष्मानुर्नार्तविभक्तिभारम् पृथिवीनभूमा त्वयामि देवा आदष्टः साम् पाथो नदीनाम् वरुण उग्रः सहस्रचक्षाः राजा राष्ट्राणाम् पेशो नदीनामनुत्तमस्मै क्षत्रम् विश्वाय अविष्टो अस्मान्विश्वासु विक्ष्वद्युम् कृणोदशम् सन्निरित्सो ये तु विद्युद्भिषामशे वा युरोतरविश्वग्रपस्तनूनाः अरेन्नो अग्निरहव्यान्नमोऽभिः प्रेष्ठो अस्मा अधायि स्तोमाः सजोर्देवेऽभिरतान्न सखायम् गृद्धम् शिवो नो अस्तु अब्जामुक्थैरहि गृणीषे बुध्ने नदीनाम्रजः सुषेदन् मानोहिर्बुध्नो रिषेधान्मा यज्ञो अस्य श्रीहधृतायोः उत न एषुश्रवो दुःप्रराजेयन् विषर्धम् तो तपन्ति शत्रुम् स्वा महासे एनासो अमे एभिरेषाम् आयन्नः पत्न्येऽर्गमन्तिच्छात्पुष्टाः सु पाणिर्दधाः तु वीरान् प्रतिनस्तो मन्तुष्टाः दुषे तस्यादस्मे अनमतिर्वसूयोः तानो ओरासन्द्रातिशाचो वसून्या रोदसेवरुणानि शृणोतु परोत्रेभिः सुशरणो नो अस्तुष्टाः सुत्रोऽपि दधातु राजाः तन्नो रायः पर्वतास्तन्न आपस्पद्रा आतिशा च ओषधीरुतद्यौ वनस्पतिभिः पृथिवी सजोषा उभे रोदसी परिपासतो नः अनुत दुर्वी रोदसी जिहातावरुद्युक्षो वरुण इन्द्रसखा अनु विश्वे अमरुतो ये सहासो रायस्यामधरुणम् धियध्येये तन्न इन्द्रो वरुणो मित्रो अग्निराप ओषधेर्वनिनो दुषन्त शर्मन् श्याममरुतामुपस्थे यूयम् पात स्वस्तिभिः सदा नः शं न इन्द्राग्ने भवता भवोभिः शन्न इन्द्रा वरुडा रातहौ या शमिन्द्रा सोमाः सुविता यशसंयोः शन्न इन्द्राः भूषणा वाजसातौ शं नो भगः शमुनः शंसो अस्तु शं नः पुरन्दिः शमुसन्तु रायाः शन्नः सत्यस्य सुयमस्य शंसः शं नो अर्यमापुरुजातो अस्तु शं नो धाता शमुधत्ता नो अस्तु शं न पुरोचे भवतु स्वथाभेः शं रोदसे बृहते शं नो अद्रिश्यन्नो देवानाम् सुहवाः निशन्तु शं नो अग्निर्ज्योतिरनीको अस्तु शं नो अमित्रावरुडावश्विनाशम् शन्नः सुकृतां सुकृतानि सन्तु शन्न इषिरो अभिभाः तु वाताः शं नोद्यावाः पृथिवीपूर्वहो तौ शमन्तरिक्षन्द्र नो अस्तु शन्न ओषधेर्वलिनो भवन्तु शं नो रजसस्पतिरस्तु इन्द्रो वसुभिर्देवो अस्तु शमाः दित्येभिर्वरुडः सुशंसाः शन्नो रुद्रो रुद्रेभिर्जलाः श्यन्नः स्पष्टाज्ञाभिरिह शृणोतु भवतु ब्रह्म सन्नः शन्नो ग्रावा नश्यमु सन्तु यज्ञाः भवन्तु शं वस्तु वेदीः शं नः सूर्य उरुद्रा उदेतु भवन्तु शं नः पर्वता ध्रुवजो भवन्तु शन्नः सिन्धवः शमु सन्तापाः शन्नो अरितिर्भवतु रते शन्नो भवन्तु मरुतः स्वर्गाः शं नो विष्णुः शमुपूषानो अस्तु शं नो भवित्रं शं वस्तु भायुः शन्नो देवः सवितात्रायमाणः शन्नो, शन्नो भवन्तु शसो विभातेः शन्नः पर्जन्यो भवतु प्रजाभ्यः शन्नः क्षेत्रस्य पतिरस्तु शम्भुः शन्नो अदेवा विश्वदेवा भवन्तु शंसरस्वतीसहधिभिरस्तु शमभिषाचः शमुरातिशाचन्नो अ दिव्याः पार्थिवाः शन्नो अप्याः शन्नः सत्यस्य पदयो भवन्तु शन्नो अर्वन्तः शमुसन्तु शन्नर्भवः सुकृतस्सु हस्ताः शं नो भवन्तु वितरोहदेषु शं नो अज एकपाद्देवो अस्तु शं देवगोपा आदित्या रुद्रावसवो शृण्वन्तु नो दिव्याः पार्थिवा सोऽगोजाता उत जे ये यज्ञिया सह ये देवानाः यज्ञियाः यज्ञियाः राम् मनोर्यजत्रा अमृताः तज्ञाः तेनोरासन्तामुरुगायमद्ययोयम् वात स्वस्तिभिः सदा नः सम्बधीः पारयन्त्येते तम् पृच्छन्ति वचोजुजाः अभ्यारन्तञ्जयमाके एतुञ्ज एवेदमितिब्रवन् भासा के एतम् परिसृतम् भारतेर्ब्रह्मवर्धनेः माताय एवेदमि एवेदमितिब्रवत् इन्द्रस्तङ्गिम् विभुम् प्रभुम् भानुनेयम् सरस्वतीम् येन सूर्यमरोदयद्येने मे उभे जुषस्वाग्ने अङ्गिरः काण्वम् मेध्यातिथिम् मात्मा सोमस्य मधुमत्तमः तमग्ने अङ्गिरः शोचस्पदे ववीतमः आशन्तमशन्तमाभिरभिष्टिभिः शान्तिः स्वस्तिमकुर्वत शन्नः कनिकृदेवः पर्जन्यो अभिवर्षतु शन्नोद्यावापृथिवीशम् इति पञ्चमाष्टके तृतीयोऽध्यायः